नमो नमः सर्वेषां स्वागतं नमो नमः नमो नमः नमो नमः स्वागतं स्वागतं राधा भगिनी राधा वदन्ति वा आं भगिनि सरस्वती नमस्तुभ्यं वरदेकामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा शुक्लाम् भरतरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्याये सर्वविघ्नोपशान्तये धन्यवादः अस्तु अस्माकम् विषयः अस्ति सप्तमी विभक्ति इति तत्र वयम् दृष्टवन्तः गतसप्ताहे सर्वनामपदानि सर्वनामपदानि स्वीकृत्य तत्र सप्तम्यन्तं पदानि कानि एतत् सर्वं वयं दृष्टवन्तः अद्यदिने अग्रे सरामः कथं भवति चेत् एकवारं गतसप्ताहे यत् वयं पठितवन्तः तत् पश्यामः दृश्यते स्क्रीन् दृश्यते वा आं okay. दृश्यते भगिनी दृश्यते हा एकवारं दृश्यते पठामः भारतमहोदय नमो नमः भवान् पठति वा नमो नमः भगिनि तस्मिन् तयोः एषु एतस्मिन् एतयोः एतेषु कस्मिन् कयोः केषु तस्यां तयोः तासु hmm. एतस्याम् एतयोः एतासु तस्यां कयोः कासु wow. एतत् सर्वं तस्मिन् तयोः तेषु एतस्मिन् एतयोः एतेषु कस्मिन् कयोः केषु एतत् सर्वं पुल्लिङ्गिरूपाणि स्त्रीलिङ्गिरूपाणि कानि तस्यां तयोः कासु हा एतस्याम् एतयोः एतासु कस्याम् कयोः कासु एतावत्पर्यं वयम् पठितवन्तः अधुना अग्रिमे पश्यन्तु अत्र तस्मिन् तयोः तेषु एतस्मिन् एतयोः एतेषु कस्मिन् कयोः केषु तत्र सर्वस्मिन् सर्वयोः सर्वेषु इत्युक्ते तत्र पुल्लिङ्गिपदानि कानि पुल्लिङ्गिपदानि एतत् सर्वं सर्व इति पुल्लिङ्गिशब्दः अस्ति चेत् तस्य सप्तम्यन्तं रूपाणि एकवचनान्त द्विवचनान्त बहुवचनान्त सर्वस्मिन् सर्वयोः सर्वेषु अधुना सर्व एव शब्द श्रीलिङ्गी सर्वा इति रूपेण आगच्छति चेत् सर्वा कथं भवति सर्वस्यां सर्वयोः सर्वासु इति दृश्यते हा इत्युक्ते श्रीलिङ्गिरूपाणि तत्र भवति तस्याम् एतस्यां कस्यां सर्वस्यां पुल्लिङ्गि सर्वस्मिन् तस्मिन् एतस्मिन् कस्मिन् एवं रूपाणि भवन्ति हा अधुना एकवारं पुनः एकवारं तस्य स्मारणं वयं कुर्मः वयं पठितवन्तः तत्र पुल्लिङ्गिशब्द अधुना एकमेकं एकम पृच्छामि पुल्लिङ्गि पुल्लिङ्गी शब्द यदा रामः इति अस्ति चेत् अधुना वीणा भगिनी रामः इति अकारान्तपुल्लिङ्गिशब्दः अस्ति चेत् तस्य सप्तम्यन्तरूपाणि कानि वदति वा वीणा भगिनी न श्रूयते वा मम ध्वनि श्रूयामि असु न रामः इति अकारान्तपुल्लिङ्गीशब्द तस्य सप्तम्यन्तरूपाणि वदति वा कानि इति Uh, बागीनी, वीना बागीनी, uh, be in mute uh, अस्तु अस्तु एवं वा अस्तु mm. जयन्ति भगिनी अस्तु चिन्ता मास्तु जयन्ति भगिनी वदति वा रामशब्दः अकारान्तः पुल्लिङ्गशब्दः तस्य सप्तमे विपत्तिरूपं रामे रामयोः रामेषु अधुना तथैव इकारान्त शब्द यदि मुनि मुनी, मुनी इति स्वीकरोति तस्य रूपाणि सप्तम्यन्तं मुनौ मुनयोः मुनिषु योग्यं गुरु इति उकारान्तपुल्लिङ्गिशब्दः अस्ति चेत् गुरौ गुर गुरोः गुरुषु सम्यक् Mm, okay. अधुना पिता इति अस्ति चेत् रुकारान्तपुल्लिङ्गी पितरी पितर पितरी पित्रोः पितृषु सम्यक् योग्यं धन्यवादः धन्यवादः अधुना राधा भगिनी भवती अकारान्तश्रीलिङ्गशब्दसेना इति अस्ति चेत् सेनायां सेनयोः सेनासु योग्यं हा तथैव इकारान्तश्रीलिङ्गे मति इति स्वीकरोतु मति इकारान्तश्रीलिङ्गे uh, कथं uh, भवति hmm. uh, huh? uh, uh, मत्यां मतो मतौ मत्योः मतिषु मतिषु hmm. मत्यां मत्योः मतिषु अस्तु अधुना uh, uh, इकारान्तस्त्रीलिङ्गे इकारान्तश्रीलिङ्गे तत्र नदी नदी तस्य के कथं भवति नद्यां नद्योः नदीषु योग्यं धन्यवादः धन्यवादः अधुना भारतमहोदय भारतमहोदय अस्ति वा अकारान्त नपुंसकलिम्ब वन इत्युक्ते वनं वने वनानि इति भवति तस्य सप्तम्यन्तरूपाणि वदति वा देखे देखे वने वनयोः वनेषु वनयोः अस्तु अत्र इतोपि एकमस्ति इकारान्तनपुषकलिङ्गि शब्द इकारान्त नपुसकलिङ्गि जलम् अर्थे मारि इति शब्द तस्य रूपाणि वदन्ति वा वारिषु अत्र वारिषु इति सम्यक् परन्तु तत्र वारिशब्दे वारिणि वारि वारिणि वारिणोः इति भवति वारि वारिणि वारि वारि वारिणोः वारिषु इति वारिणोः वारिषु आमां तथैव अधुना इतोपि एकमस्ति उकारान्तनपुसकलिङ्ग उकारान्तनपुसकलिङ्ग मधु मधु तस्य रूपाणि स्मरति वा मधुनि मधुनोः सत्यं तत् मधुनि मधुनोः मधुषु एवं सर्वं भवति हा अनन्तरं वयं दृष्टवन्तः तत् सर्वनामपदानि यदा अस्ति चेत् रूपाणि कथं भवति तत्र वयं दृष्टवन्तः एतस्मिन् तयोः तेषु एतस्मिन् एतयोः एतेषु कस्मिन् तयोः केषु एव सर्वं वयं दृष्टवन्तः अधुना अत्र एकं तु अहम् उक्तवती सर्वस्मिन् सर्वयोः सर्वेषु सर्व इति पुल्लिङ्गि शब्दस्य कृते सर्व इति तिर्लिङ्गिशब्दस्य शब्दस्य कृते वि रूपाणि कानि सर्वस्यां सर्वयोः सर्वासु अधुना अद्यदिने इतोपि किञ्चित् अग्रेसराम भवान् इति शब्द, शब्द हा भवान् इति पुल्लिङ्गिशब्द तस्य सप्तम्यन्तं पदानि पुरतः आगच्छति तथैव भवति इति त्रिलिङ्गिशब्द तस्य सप्तम्यन्तं पदानि तत्र अस्ति हा ी भगिनी पठतिवा आमेन भवति भिन् भवती भवतोः भवत्सु पुल्लिङ्गरूपं भवत्यां भवत्योः भवतीषु स्त्रीलिङ्गं स्त्रीलिङ्गरूपं मयि आवयोः अस्मासु इति अस्मत् शब्दं त्वयि युवयोः युष्मासु इति युष्मत् hmm. शब्दस्य रूपम् अधुना तत्र मयि आवयोः अस्मासु अस्मत् शब्दस्य कृते हा यदा अहम् इति प्रथमाविभक्ति एकवचनान्तपदं त्वयि युवयोः युष्मासु तत्र त्रिषु लिङ्गेषु तत्र नपुंसकलिङ्ग पुल्लिङ्गीलिङ्ग इति भेदः अस्ति वा अस्मत् nah, युष्मत्कृते समानम् एव भवति खलु इति महत्त्वपूर्ण अंशः अस्मत् शब्द युष्मत् शब्द त्रिषु लिङ्गेषु समानानि रूपाणि सन्ति तत्र लिङ्गानुसारेण कोऽपि भेदः नास्ति इति सर्वेषु स्थलेषु मयि आवयोः अस्मासु त्वयि युवयोः युष्मासुष्मासु अस्तु तत् अग्रिमे हा धन्यवादः भगिनी अधुना अस्माकं पुस्तके यद् दत्तमस्ति तस्य पठनं वयं कुर्मः पुस्तकं प्रति गच्छामः अस्माकं पृष्ठक्रमाङ्कः प्रचलति तत्र स्क्रीन् दृश्यते खलु सर्वेषां दृश्यते दृश्यते तत् वयं कृतवन्तः अधुना भवान् एतदपि वयं कृतवन्तः तत्र एवं तत् वयं कृतवन्तः अहं भोः तत् शब्द पुल्लिङ्गेन पुसकलिङ्गे एतत् किं भवत् सर्व अस्मत, युष्मन् एकवारं तस्य पठनं कृत्वा वयम् अग्रे चर्यामः भारतमहोदय भवान् भवान पठतिवा, एकवारं सर्वं, एतानि सप्तमीविभक्तिरूपाणि तथा आरभ्य एतानि सप्तमी विभक्तिरूपाणि विभक्ति सावधानतया पठत तत् पुलिङ्गेनपुसङ्कलिङ्गे च तस्मिन् तयोः तेषु तस्मिन् एकवचन् तयोः द्विवचनं तेषु बहुवचन् स्त्रीलिङ्गे तस्याम् एकवचनं तयोः द्विवचनं तासु बहुवचनम् एतत् पुलिङ्गेन नपुसङ्गलिङ्गे च एतस्मिन् तयोः एतेषु स्त्रीलिङ्गे एतस्याम् द्विवचनम् एतयोः एतासु किं पुलिङ्गे नपुसुङ्कलिङ्गे च कस्मिन् कयोः केषु स्त्रीलिङ्गे कस्यां कयोः कासु भवत् पुलिङ्गे नपुसुङ्गलिङ्गे च आ, बावत, ओके, आ, हो, लिंगे भवत्याम, हो, बा, आ, सर्व, ओकेलिंगे सर्वयो हो, चर्वस्वो सर्वा त्रीलिङ्गे सर्वस्यां सर्वयोः सर्वासु अस्मद् त्रिषु लिङ्गेषु मयि आवयोः अस्मासु युष्मद् त्रिषुलिङ्गेषु त्रिषु त्रिषु लिङ्गेषु वयि युवयोः युष्मासु त्वयि युवयोः युष्मासु मयि आवयोः अस्मासु एतत् पश्यन्तु सर्वे पुनः एक प्रथमवारम् एव वयं पठामः वारं, वारं तस्य पठनं सर्वे कुर्वन्तु हा अधुना वाक्यप्रयोगस्य विषये अपि वयम् अग्रे तत्र वाक्याः वाक्यानि सन्ति तत्र वाक्यानि दत्तानि सन्ति वयं पश्यामः परन्तु प्रतिदिने एकवारं तु एतस्य पठनं भवन्तः सर्वे कुर्वन्तु मयि आवयोः अस्मासु त्वयि उभयोः युष्मासु हा अधुना तत्र पशन्तु अत्र कथमस्ति तत् स्थालिका अस्ति तत्र बालः इति प्रथमः विभागः हा अधुना अनन्तरमस्ति एषः शब्द एषः सह भवान् त्वं कः भवति सा अहं ते भवन्तः एते ताः भवत्यः एताः यूयं वयम् अत्र किमस्ति एते सर्वे शब्दाः प्रथमा विभक्ति पदानि सन्ति तत्र एषः इति प्रथमा विभक्ति सः अपि प्रथमाविभक्ति भवान् प्रथमा विभक्ति, भवान प्रथमा विभक्ति अनन्तरं गुणाः सन्ति तत्र विनयम् आदरं प्रीतिं वात्सल्यं प्रेम स्नेहं नम्रतां श्रद्धां शङ्कां मैत्रीं सौजन्यं गौरवम् आदरं भक्तिं कृपां विश्वासं हा वस्तुतः गुणः इति कः विनय इति गुणः तस्य विनयम् इति आदर आदर प्रीति प्रीति वात्सल्यम द्वितीयांत सर्वा द्वितिया पदा किम योग कूँ कि त्र वक्योग बा प्रथमा ये सह तमी विभक्ति बाल एक विनय प्रदर्शयती अधुना किं प्रदर्शयती तरतीयांत विनय प्रदर्शयती कस्र्शयती एक प्रदर्शयती एक तकस्ट पदम एक विनय प्रदर्शति यथमा पदम तालिकायां दृश्य तस्य भवति सप्तमी विभक्ति तृतीयवत् विभागः यः विभागः अस्ति विनयम् आदरं मूलतः विनय नपुंसकलिङ्गिशब्दः परन्तु एतानि सर्वाणि द्वितीयान्तपदानि किमर्थं तत्र कर्म पदेन तस्य योजना वाक्यप्रयोगे भवति बालः एतस्मिन् किं प्रदर्शयति विनयं प्रदर्शयति कुत्र एतस्मिन् हा अधुना अग्रिमे पश्यन्तु बालः सः इति अस्ति सः इति प्रथमा सः इति प्रथमा सः इति प्रथमा तस्य षष्ठं पदं किमस्ति तस्मिन् तत् वयं दृष्टवन्तः अधुना वाक्यः वाक्यप्रयोगः बालः तस्मिन् आदरं प्रदर्शयति इति भवति हा एवं वाक्यानि वयम् रचयामः हा आरम्भं कुर्मः भं करोति राधा भगिनी भवती आरम्भं करोति वा आं भगिनि बालः भवान् प्रीतिम बालः भवती प्रीतिं, प्रीतिं प्रदर्शयति सम्यक् उत्तमम् अग्रिमे बालः त्वं वात्सल्यं बालः त्वयि वात्सल्यं प्रदर्शयति और प्रकटयति सत्यं योग्यम् ओके okay. okay. uh, बालः कः प्रेमा, बालः कस्मिन् प्रेमं प्रकटयति प्रदर्शयति वा प्रकटयति सम्यगेव बालः भवती स्नेहम् बालः भवत्यां स्नेहं प्रदर्शयति प्रदर्शयति बालः सा नम्रताम् बालः तस्यां नम्रतां प्रकटयति योग्यं बालः अहं श्रद्धां बालः मयि श्रद्धां प्रदर्शयति hmm. बालः ते शङ्काम् बालः तेषु शङ्कां करोति करोति अत्र किमस्ति ते इति अस्ति इत्युक्ते सहा ते इत्युक्ते तत्र बहुवचनान्तपदमस्ति बहु अतः तेषु तेषु योग्यं सम्यक् बालह भवन्तः मैत्रिम बालः भवत्सु मैत्रीं प्रकटयति mm. बालः एते सौजन्यम् बालः एतेषु सौजन्यं, एते mm. सौजन्यं प्रकटयति सत्यम् बालः ताः गौरवं बालः तासु गौरवं प्रकटयति hmm. बालः hmm. भवत्यः आदारं बालः भवतीषु आदारं प्रकटयति hmm. बालः एताः भक्तिम् बालः तेषु भवत्या हा भवतीषु सत्यं बालः योग्य एतेषु भक्तिं प्रदर्शयतिसु भक्तिं प्रदर्शयति बालः यूयं कृपां बालः युष्मासु कृपां प्रकटयति बालः वयं विश्वासं बालः अस्मासु विश्वासं प्रकटयति योग्यं बहु सम्यक् उत्तममय अधुना आम् तत्र सप्तमी विभक्तिः तत्र इतोपि अंशद्वयम् अधुना तत्र निपुणता वा कुशलता वा गुणानां तत्र प्रकटीकरणं यत्र यत्र दृश्यते तदा कस्मिन् यः गुणः दृश्यते एतस्मिन् तस्मिन् वा, तस्मिन वा यस्मिन् सः गुणः तस्य सप्तमी विभक्तिः भवति हा अधुना यथा भगिनी उक्तवती तथैव एव प्रथमान्तं पदं एषः तस्य सप्तमी भवति सः तस्य सप्तमी भवति इत्युक्ते तस्मिन् आदरम अस्ति तथैव यस्मिन् गुणः प्रकटयति तस्य सप्तमी विभक्तिः भवति शास्त्रे पण्डितः अस्ति तत्र पांडित्य इति गुणं कुत्र शास्त्रे दृश्यते अनन्तरं तत्र क्रीडापटुता कुत्र दृश्यते तस्मिन् दृश्यते यत्र प्रकटति प्रकटयति तस्य सप्तमी दृश्यते अधुना अग्रिमे तत्र यदा निपुणः वा कुशलः शब्दानां वयं प्रयोगः कुर्मः तदा कुशलः निपुणः सामर्थ्यं तदा किं भवति अग्रिमे पश्यामः एतत् प्रथमवारं कुर्मः पश्यन्तु कः कस्मिन् निपुणः कुशलः प्रथमम् उदाहरणं तत् कर्णः धनुर्विद्यायां निपुणः तत्र धनुर्विद्यायाम् इत्युक्ते सप्तम्यन्तं पदं धनुर्विद्यायां निपुणता निपुणता इति गुणः कुत्र प्रकटयति कर्णस्य धनुर्विद्यायां प्रकटयति तत् धनुर्विद्या इति शब्दस्य सप्तमी भवति पण्डितः अस्ति सः निपुणः कुत्र शास्त्रे निपुणः वा शास्त्रेषु निपुणः तथैव कर्णः धनुर्विद्यायां निपुणः एतादृशानि वाक्यानि रचितव्यानि हा जयन्ती भगिनी भवती पठति वा कः कस्मिन् ततः <laughs> आरभ्य आं बेनि पठामि <laughs> कर्णः धनुर्विद्यायां निपुणः दुर्योधनः गदायुद्धे निपुणः नलः पाककलायां निपुणः वितुरः नीतिशास्त्रे निपुणः शकुनी द्यूतक्रीडायां निपुणः बृहन्नल वीणावादनं वीदा वीणावादने निपुणः नकुलः अश्वशिक्षायां निपुणः मयः शिल्पकलायां निपुणः <laughs> तत्र सप्तमी विभक्तिकृते तत् निपुणकुशल यदि प्रयोगः भवति तत्र कुशलशब्दस्य कृते आयुक्तकुशलाभ्यां च सेवायां तत्र एकं सूत्रं कुशलप्रयोगस्य स्थाने सप्तमी भवति निपुणशब्दस्य कृते अपि सूत्रमस्ति साधुनिपुणाभ्याम् अर्चायां सप्तम्य प्रतिः इति इत्युक्ते तत्र सूत्रप्रयोगेण वयम् अवगन्तुं शक्नुमः निपुणकुशल आदीनां यदा प्रयोगः भवति तत्र सप्तमी भवति कुत्र अस्ति तत्र स्थानं दर्शयति अतः तत्र सप्तमी इति भवति अधुना बृहन्नला इति कस्य नाम आत्मगिनि अर्जुन अर्जुनस्य नाम कदा कदा एतत् नामस्य प्रसङ्गः अर्जुनः विराटदेश देशे एक एकवर्षं ऐ मीन् तत्र पश्यन्तु अपि सप्तमी आगच्छति खलु वदतु तत्र बृहन्नला इति नाम अर्जुनस्य पात्रं स्वीकृतवान् तत् परन्तु कथं बृहन्दला विरावादने निपुणाः निपुणा एकवारम् अर्जुनः इन्द्र अमरावतीं गतवान् ततः निपुणत्वं स्वीकृतवान् निपुणत्वं पण्डितः प्राप्तवान् पण्डितं प्राप्तवान् सत्यं कथं तैन तत्र यस्य अर्जुनस्य वीणावादने निपुणता अनन्तरं नृत्ये अपि निपुणता तत्र तस्य लाभः उत्तराया उत्तरायां आया, कृते नृत्यमपि बोधितवान् खलु आचार्यरूपे पाठयितवान् सः योग्यकुलः कस्मिन् प्रवीणः नकुलः नकुलः अश्वशिक्षायां सामर्थ्य mm. वदामि सहदेवस्य mm. विषये कोऽपि जानाति वा ज्योतिषशास्त्रे निपुणः सः नु, सत्यं सत्यं तत्र mm. कदा किं भवितुं अर्हति वा कस्य प्रसङ्ग शकुनविषयकज्ञानं एतत् सर्वं महदेवस्य समीपे आसीत् शकुनि शकुनि द्यूतक्रीडा द्यूतक्रीडायां सत्यं तेन किम् अभवत् शकुनेः तत्र द्यूतक्रीडायां शकुनेः निपुणता एव महाभारतकान्ता एव तत्र तेन एव महाभारतयुद्धम् अभवत् इति सम्यक् नलः नलः पाककलायाम् इत्युक्ते नलः पाकपाक पाककलायां निपुणत्वम् अस्ति बेहिनी तत्र पाकं सम्यक् करोति सः महाभारते तस्मिन् विवरणमपि अस्ति तत्र लिखितम् एकं ग्रन्थो ग्रन्थ तत्र दृश्यते तत्र तेन एकं तत्र ग्रन्थस्य योजना अपि तेन कृता नलः पाक पाकशास्त्रे ख्यानम् इति महाभारते एकभागं सम्यक् एक पूर्व ऐ पूर्ण कथा अपि अस्ति बेनि अस्तु अधुना तत्र विदुरः कः विदुरः Uh, बुद्धिशालि नीतिशास्त्रे पण्डितः बेनि सभायां mm. uh, I mean, दुर्यो ऐ सभायां uh, नीतिशास्त्रं वक्तुं सामर्थ्यं विदुरे भवति महामन्त्रीविदुरः अस्तु अस्तु सम्यक् सम्यक् अधुना राधा भगिनी विदुरः कस्य भ्राता धृद्राष्ट्रस्य धृद्राष्ट्रपाण्डौ पाण्ड पाण्ड पाण्डव पाण्डयोः पण्डोः पण्डु पण्डु पण्डोः भ्राता भ्राता विदुर विदुरस्य माता का नाम न जानामि दासीपुत्र इति तस्य सत्यं सत्यं विदुरस्य पिताहर्षि व्यास महर्षि सत्यं सत्यं अधुना पश्यन्तु सर्वे वस्तुतः विदुरः अपि व्यासपुत्रः एव परन्तु तस्य यत्र यत् उल्लेखः वयं पश्यामः तत्र सर्वेषु स्थलेषु तत्र दासिपुत्रविदुरः दासीपुत्रः विदुरः परन्तु तेन अपि सः तस्य निपुणता यत् mm -hmm. अत्र दत्तमस्ति तस्य निपुणता नीतिशास्त्रे दृश्यते तत्र निपुणतायाः उपरि किमपि असरः न दृश्यते ah. तत्र असरः न जातः mm -hmm. इत्युक्ते विदुरः अतीव संयमी अतीव तत्र ज्ञानी इति तस्य मन्त्रीरूपेण तत्र, तत्र महामन्त्री सः अभवत् ah. परन्तु कर्णविषये वयं किं वदामः कर्णधनुर्विद्यायां निपुणः तत्तु सत्यं परन्तु कर्णस्य मनसि सदा सर्वदा असूया वा तत्र मत्सर अर्जुनस्य विषये तत्र मत्सरभावना वा असूया इति भावना सदा सर्वदा तस्य मनसि आसीत् हा अतः विदुरः इति सर्वे जनाः विदुरस्य नीतिशास्त्रं विदुरस्य प्रशंसाम् इतोपि अधुना अपि विदुरस्य प्रशंसा तत्र प्रचलति परन्तु कर्णस्य विषये सदा सर्वदा तत् खेदजनकमृत्युः अपि तत्र मृत्यु अपि सह यत् स्वीकृतवान् तदपि खेद अवस्थायां एव तत् मनसि ये ये वा विचाराः तेषाम् अत्र अस्माकं जीवने mm -hmm. तस्य अतीवमहत्त्व महत्वं वर्तते अस्माकं मनसि अतः तत्रापि पश्यन्तु मनसि सप्तमी mm -hmm. मनसि वा आत्मनि ये ये mm -hmm. विचाराः तेषाम् उपयोगेन एव वयं किं गीताया गीतायाम् उक्तमस्ति अस्माकम् उद्धारः सम्भवति वा वयम् अधोगतिम् अपि प्राप्नुमः इति mm -hmm. अत्र अवधेयमिति अस्ति यदा जनेषु निपुणता कुशलता सामर्थ्यम् इत्यादि प्रकटयामः तदा तस्मिन् सः गुण अस्ति तस्य सप्तमी विभक्ति भवति इति सप्तम्यन्तविभक्ति विभक्त्यन्तपदानि अधुना इतोपि एकमस्ति यस्मिन् हा कोऽपि भवत्सु अपि कोऽपि पठतु भारतमहोदय पठति वा यस्मिन् अङ्गे ग्रहणं तत् भगिनि यस्मिन् अङ्गे यस् यस्मिन् अङ्गे ग्रहणं ताडनं इत्यादिकं भवति तस्य अङ्गस्य यस्मिन् अङ्गे ग्रहणं ताडनं प्रहरणं तस्य अंगस्य सप्तमी विभक्ति hmm. अङ्गे ग्रहणं ताडनं तस्य सप्तमी विभक्ति उदाहरणानि वयं पश्यामः अत्र अस्ति पठतु महोदय कोष्ठके कोष्ठके विद्य विद्यमानस्य शब्दस्य विभक्ति सप्तमे विभक्तिरूपेण यथोदाहरणं रिक्तस्थानं पूरयत शत्रुः तं कष्टः कष्टे गृह्णाति इत्युक्ते किम तत्र कण्ठ इति अंगस्य ग्रहणं भवति अंगे ग्रहणं कस्य कण्ठस्य अतः तत्र कण्ठे गृह्णाति कण्ठे गृह्णाति अधुना पश्यन्तु सर्वे यदाहं वदामि शत्रुः तम् शत्रुः तं कंठे गृह्णाति एतस्मिन् सले यदा अहं वदामि शत्रुः तस्य तस्य कण्ठं धरति तदा सप्तमीविभक्ति उपयोज सप्तमीविभक्तेः उपयोजना न सम्भवति शत्रुः तस्य कंठं धरति इत्युक्ते कंठं धरति अत्र ग्रहणं न सम्भवति ग्रहणम् इति गृह्णाति इति धरति इत्युक्ते न ग्रहणं ग्रहणम् इत्युक्ते तत्र ताडनं करणीयमस्ति अदा तथा तत्र ग्रहणं यदा भवति तदा एव सप्तमी आगच्छति अधुना सः अग्रिमे अपि पश्यतु महोदय प्रहरति सः भवन्तं चा, रक्षः स्थले प्रहरति दुःशासनः द्रौपदी केशाः गृहीयाति गुँ. दुःशासनः द्रौपदी द्रौपदी गुँ. गुँ. द्रौपदीं केशायां न केशाशु अत्र अत्र किमस्ति के केशः इति पुल्लिङ्गिशब्दः केशः इति पुल्लिङ्गिशब्दः अतः तत्र रामः रामौ रामाः केशः केशौ केशाः अतः तत्र किम् सप्तमी पुल्लिङ्गे केशे, केशेषु केशे सम्यक् केशेषु गृह्णाति इति अत्र एषः प्रसङ्गः कः कदा सह सः गृह्णाति द्यूतक्रीडायां द्यूतक्रीडायां द्यूतक्रीडा अत्र चलन्ती आसीत् तस्मिन् समये सा दासी भवत् तदा सः केशेषु गृह्णाति दुष्टा सञ्जाति अग्रिमे भीमः किचकं मस्तकं ताडयति भीमः कीचकं मस्तके ताडयति मस्तके ताडयति तत्र कीचकः कः भवान् जानाति वा हा तत्र उत्तरा इति तत्र विराटनगरी विराटनगरे तत्र विराट नगरी तत्र भीमः तत्र बल्लवाचारी अनन्तरं सैरन्ध्री इति द्रौपदी तदा कीचकः तत्र भीम कीचकवत् तत्र एव अभवत् भीमेन कृतं तत्र तस्मिन् समये सः मस्तके ताडयति ह प्रहारं करोति तस्य मस्तके हा अग्रिमे भवान् भवान् मां पादौ किमर्थं भवान माम मां पादयोः पादयोः सम्यक् सम्यक् पादयोः किमर्थं पादयोः सप्तमी द्विवचनान्तम् अतः पादयोः योग्यम् यो योधः शत्रुम् उदरं ताडयति योधः शत्रुम् उदरे ताडयति आम् उदरे ताडयति आरक्षकः तोरं कष्टः गृह्णाति कण्ठे कण्ठे गृह्णाति इत्युक्ते कथ अत्र भावः कः अङ्गस्य ग्रहणं कृत्वा अङ्गे ग्रहणं कृत्वा ताडनं वा प्रहारं करणीयम् एवं सर्वं तत्र दृश्यते अस्तु अधुना अन्तिमम् एतत् वयं पठितवन्तः परन्तु पुनः एकवारं तत् पठामः राधाभगिनी पठति वा धन्यवादः भारतमहोदय तत् वयं पठितवन्तः यदा जनेषु तदपि अन्तिमं तत् श्लोकं वयं पठामः हा राधाभगिनी पठति वा भगिनी गीताञ्जलिभगिनी अपि अस्ति अस्तिवा वा क्षम्यतामां न दृश्यते अस्तु अस्तु गीताञ्जलि भगिनी भवती पठति वा कृपया हा भगिनी हरि ओम् भगिनि श्लोकं वा भगिनि आमाम् एतत् श्लोकम् आम आम एतत् श्लोकम् श्लोकम उच्चैः पठत कस्तूरी श्लकं ललाटफलके वक्षस्थले कौस्तुभं दासाग्रे करे कण्डुकनं सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे मुक्तावलिं गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः hmm. अग्रे अत्र हा अग्रे अपि पठतु खलु श्रीकृष्णः कस्मिन् अङ्गे किं धरति कस्मिन् अङ्गे किं धरति इति वदत यथा श्रीकृष्णः ललाटफलके कस्तूरितिलकं धरति प्रस्तूरितिलक चन्दन हा चन्दनं कस्तूरीतिलकं ललाटफलके अग्रिमे किम् अग्रिमे किं वक्तुं शक्नोति श्रीकृष्णः श्रीकृष्णः धारयति कौस्तुभ तत् माणिक्यं खलु प्रेशिष्टो नैतिकं सुवमौक्तिकं मौक्तिकं नासागरे नासिकायाः अग्रस्थाने नासागरे इत्युक्ते नासिकायाः अग्रस्थानं नासिकायाः अग्रस्थाने किं धारयति नवमौक्तिकम् इति नवमौक्तिकम् करतले वेणुं करे वेणुं वेणुं ah. करे कण्डुकंगल्स् कण्डुकं सर्वाङ्गे हरिचन्दनं चोल् बाडि अप्लेस् हरिचन्दनं हरिचन्दनं च कलयन् कण्ठे कलयन् कण्ठे मुक्तावलिं मुक्तावलिं मनी माला इति मुक्तावलिम् पश्यन्तु सर्वाङ्गे हरिचन्दनम् च कलयन् कलयन् इत्युक्ते तत् धारणम् करोति कल् इति दातु हा कलयन् धारणम् करोति सर्वाङ्गे हरिचन्दनस्य लेपनम् कण्ठे मुक्तावलिम् तदा कलयन् शब्दस्य योजनेन सर्वाङ्गे कलयन् कण्ठेजम् उक्तावलीम् अग्रिमे गोपस्त्री गोपस्त्रीपरिवेष्टितो गोपालचूडामणिः गोपश्रीपरिवेष्टि वेष्टि मीन्स् मीटिङ्ग् न अत्र गोपस्त्रीपरिवेष्टितः कः गोपस्त्रीपरिवेष्टितः भगवान् श्रीकृष्ण यम् परितह सर्वत्र गोपिकाः सन्ति परिवेष्टितः गोपिकाभिः परिवेष्टितः सर्वत्र गोपिका यम् परितः सर्वत्र गोपिकाः सः गोपश्री परिवेष्टितः विजयते गोपालचूडामणिम् कः गोपालचूडामणिम् पश्यन्तु शब्द तत्र सामासिकशब्द गोपालचूडामणि गोपालः यम मस्तके धारयति गोपालां तत्र गोपालेषु आदरस्थानं मस्तके धारयति सः शिरोभूषण केषां गोपालानाम, गोपालानां शिरोभूषण एतादृशः श्रीकृष्णः गोपालचूडामणिः भगवान् गोपालचूडामणिः श्रीकृष्णः गोपालानां शिरोघोषणम् एव यं गोपालः मस्तके धारयति आदर परमोत्कट आदर इति मस्तके धारयति इति श्रीकृष्णः अस्तु अस्तु अस्तु उत्तमम् उत्तमम् उत्तम, धन्यवादः अधुना अस्माकं कथायाः समय वयं कथां प्रति गच्छामः <laughs> अत्र दिनस्य कथा मकर तोरणम्, भवन्तः सर्वे कोऽपि जानन्ति वा तत्र मकर इत्युक्ते किं किं नाम मकरतोरणम् अत्र एका हा अत्र पश्यन्तु तत्र मन्दिरे वा पश्यन्तु तत्र सन् टेम्पल् इति सूर्यमन्दिरं भवन्तः जानन्ति वा सूर्यमन्दिरं तत्र uh, मोढेरा uh, स्थाने uh, आमां आम तत्र पर्टिक्युलर् स्टैल् आफ् केनोपी आर्नामेण्टल् डेकोरेटिव् केनोपी तट् मकरतोरणं पर्टिक्युलर् आर्ट् आफ् कार्विङ्ग् देट् फार्म्स् आर्च् सार्ट् आफ् स्ट्रक्चर् तत्र सेमि सर्क्युलर् फार्म् मध्यभागे तत्र मध्यभागे किं दृश्यते तत्र कीर्तिमुखः इति मध्यभागे यत् मुखं दृश्यते तत् कीर्तिमुखः इति वयं खजुराहो खजुराः कन्दारिया महादेव मन्दिर् तत्र अस्ति एवं तत्र मोढेरा सन् टेम्पल् तत्र अस्ति बहुत्र तत्र दृश्यते हा मकरध्वजः मकरतोरणम् इति अत्र दट् पर्टिक्युलर् मिडिल् पार्ट् दट् कीर्तिमुखः तस्य कथा अद्य दिने वयं पठामः पश्यन्तु का कथा अस्ति आरम्भं करोतु जयन्तीभगिनी आरम्भं करोति वा मकरतोरणं मकरतोरणं दे देवालयेषु द्वारणतोरणस्य तोरणस्य मध्यभागे देवविग्रहम् परितः मकरतोरणम् भवति तन्मध्ये राक्षस राक्षसमुखम् राक्षसमुखम् रा, किञ्चन दृश्यते तत् hmm. मुखम् किमर्थम् तत्र स्थाप्यते इति विषयम् अधिकृत्य स्कन्दमहापुराणे काचित् कदा वर्तते देवालयेषु mm. देवालयेषु देवाल द्वा द्वा द्वारतोरणस्य द्वारे देवालयस्य देवालयस्य द्वारमुखे द्वार तोरणरूपेण mm. एकशिलारूपम् अस्ति शिलारूपं mm. तन्मध्ये mm. मकरतोरणम् इति भवति तस्य hmm. तन्मध्ये राक्षस राक्षसानां मुखं दृश्यते तत् किमर्थम् hmm. इति तत्र स्थाप्य किमर्थं तत्र स्थाप्यते इति स्कन्दमहापुराणे विवरणं ददाति hmm. काचित् कथा वर्तते इति पठामि वा भगिनि अधुना मम विचारः कः तत् एकं वदामि तत्र पश्यन्तु अस्माकम् अधुना स्तरवर्धनं प्रचलत अस्ति तत्र महापुराणे वा भगवद्गीतासु यत्किमपि अस्ति तत्तु वयं पठामः तत्र पुराणे का कथा रामायणे का कथा महाभारते का कथा एवं सर्वं शनैः शनैः तस्यापि पठनम् अस्माभिः भवेत् इति अतः अस्माभिः एतत् सर्वं करणीयम् अतः आरम्भतः स्कन्दमहापुराणे एषा कथा अग्रिममपि पठतु अनन्तरम् अन्यकोऽपि पुरा पठतु पुरा कीर्तिमुखः नाम राक्षसः आसीत् सः घोरं तपः आचरितवान आचरितवान् तपसा सन्तुष्टः सन्तुष्टः ब्रह्म तस्य पुरतः प्रत्यक्षभूयः वरं प्रार्थय इति अवदत् राक्षस प्रत्यक्षीभूय प्रत्यक्षीभूय सारिवेणी प्रत्य प्रत्यक्षीभूय वरं प्रार्थय इति अवदत् राक्षसो अपि अनेकान् वरान् प्राप्तवान् एकवारम् एक, एक राक्षसः घोरकतपः तपः तपः कृतवान् तस्य नामः कीर्तिमुखः इति तपसा सन्तुष्टः ब्रह्मदेवः तस्य प्रत्यक्षम् आगत्य तां पृष्टवान पृष्टवान् वरं प्रार्थय इति राक्षसापि अनेकान् वरान् पृष्ट पृच्छवान् पृष्टवान् ब्रह्मा अपि अनेकवरान् दत्तवान् अस्तु एतावत्पर्यन्तः धन्यवादः धन्यवादः अधुना अग्रिमे राधा भगिनी पठेत् वरबलेन बलेन मन्दान्दः जातः सः राक्षसः समस्तम् भुवनम् अक्रान् आक्रान्तवान् ततः तस्य अहङ्कारः गर्वः च प्रवृद्धः ब्रह्माविष्णुमहेश्वराणाम् अपेक्षया अहमेव श्रेष्ठः शक्तिमान् च इति सह सह स्म hmm. तं अग्निदेवं तस्य तदा कीर्तिमुखः पलायनम् समग्रे भूमण्डले सः धावन कृतवान् अनन्तो गत्वा अन्ततो गत्वा, गत्वा।, गत्वा प्राणरक्षणार्थं सः शिवम् आश्रितवान् वरबलेन कीर्तिमुखः राक्षसः बहु अहङ्कार अभवत् तत्कारणं गर्वमपि प्रवृद्धः तस्य मने विचारम अस्ति ते ब्रह्मा विष्णु महेश्वरा, मरेश्व महेश्वराणाम् अपेक्षा श्रेष्ठमस्ति शक्तिमान् अस्ति इति तस्य तत्कारणम् अहङ्कारेण ते सर्व, सर्वानाम पीडयितः पीडयति तत्कारणं शिव भगवान् कु, कुपितः जातः तस्य मा, मारयितुम् इति चिन्तितवान् अग्निदेवं प्रेषितवान् तस्य मरणं कृतवान् इति अग्निदेवः तस्य पृष्ठतः धावितवान् कीर्तिमुखः भयं कारणं पलायनं कर कृतवान् yes. सर्वे सर्वभूमण्डले धावितवान् परन्तु कोऽपि तस्य हौ डु से हेल्प् समग्रे भूमल सहायं न कृतवान् किमपि सहायं न कृतवान् अन्ते शिवभगवान् इति शरणागतं प्राण प्राण तस्य प्राणरक्षणार्थं आश्र आश्रितवान् आश्रय कृतवान् शिवं शिवस्य आश्रयं स्वीकृतवान् सम्यक् बहु उत्तमं बहु सम्यक् बहु सम्यक् पश्यन्तु तत्र मदान्धः जातः मदान्धः इत्युक्ते किं मद मद काम क्रोध मद मोह मत्सर एते सर्वे गुणाः तेषां त्यजनम् एव भवेत् इति भगवद्गीता वदति मदान्ध तत्र मदेन अन्धः मदेन भावनया अहम् एव श्रेष्ठः अहम् mm -hmm. एव प्रबलः mm -hmm. तत् प्रबलतायाः विचारः कीदृशम् mm -hmm. ब्रह्माविष्णुमहेश्वराणाम् अपेक्षया अपि अहम् तेषाम् mm -hmm. अपेक्षया एव अहमेव श्रेष्ठ अहं शक्तिमान् अहं mm -hmm. सामर्थ्यवान् इति mm -hmm. सः चिन्तयति तेन मनसि अहङ्कारः अहङ्कारः उद्धृतः तेन किम् अहङ्कारेण अन्येषाम् पीडाम् अन्येषाम् पीडाम् सः ददाति स्म अधुना तत् अग्निदेवम् अग्निदेवः आगच्छति अग्निदेवम् दृष्ट्वा सः भीतः तत् पलायनम् तत्र अत्र तत्र सर्वत्र भूमण्डले सः गतवान् परन्तु अन्ततो गत्वा शिवम् एव तस्य शिवस्य स्थान एव तस्य शिवस्थानम् एव तस्य आश्रयस्थानं शिवं एव आश्रितवान् सम्यक् उत्तमं भगिनी राधा hmm. भगिनी अग्रिमे hmm. अग्रिमे भा भरतमहोदय पठति वा तदा शिवः भगिनि हा तदा शिवः शिव ललाटे तृतीयनेत्ररूपेण Mm. प्रभो मम क्षा mm. खादितु खादितु इति शिवं mm. प्रार्थयत् mm. तदा शिवं शिव सीव, नेत्र तृतीयनेत्ररूपेण धृतवान् ललाटे ललाटे इत्युक्ते कपाल् अधुना एवं वयं पठितवन्तः खलु श्लोके कस्सूरे तिलकं ललाटफलके ललाट फलके ललाटे अत्रापि सप्तमी ललाटे धृतवान् इत्युक्ते mm -hmm. तत्र राक्षसः तत्र शिवस्य ललाटे स्वस्य स्थानं प्राप्तवान् केन रूपेण तृतीयनेत्ररूपेण अधुना तत्र तत्रापि स्थित्वा राक्षसः श्रान्तः इति न तत्रापि सः वदति किं वदति प्रभो म मम महती बुभुक्षा इत्युक्ते किं भारतमहोदय Bhubuksha. Bhubuksha means uh, I'm hungry, right? Ah, um, somewhere. Bhubuksha, it upte? Hunger. Pipasa it upte? Pipasa? Taras. Taras tea. Ah, very, very. Bhubuksha, pipasa, jhidnyasa? Ah, how to say that... Um, ज्ञातुमिच्छा ज्ञातुमिच्छा सत्यं पश्यन्तु एते सर्वे सनादि सनन्त सन्प्रत्यय सन्प्रय सन्प्रत्यय इच्छार्थन्प्रत्यय सन इच्छां दर्शयति बुभुक्षा खादितुमिच्छा पिपासा हस्ट् इति वदामः पातुमिच्छा तदनन्तरं जिज्ञासा हा अत्र भगवद्गीतायां प्रथमं तत्र प्रथमः एव श्लोकः समवेता युयुत्सवः युयुत्सु हा इत्युक्ते <laughs> सर्वे योद्धुम् इच्छुकाः यु युयुत्सा युद्धस्य इच्छा इति सन्प्रत्ययन्तरूपाणि उत्तमस्य महोदय हा खादितुं किमपि देहि बुभुक्षा अस्ति खादितुम् इच्छति सः किमपि देहि देहि इत्युक्ते ददातु देहि इति आत्मनेपरिरूपं तत देहि ददातु मध्यमपुरुष एकवचनम् इति एक, हा अग्रिमे अपि पठतु शिवः अवदत् शिवः अवदत् भवान् स्वदेहम् एव खा, खादतु इति खादि खा, खादितुम् इच्छति तदा भगवान् वदति स्वदेहमेव खादतु स्वस्य एव भक्षणं करोतु स्वदेहं खादतु इति भगवान् शिव वदति अधुना अग्रिमे राक्षस राक्षसः किड्निमुखः मकररूपं धृत्वा पुच्छ छतः स्वदेहस्य खादनम् आरब्धवान् mm. खादन, खादन, खादन, खादन् खादनस्थः कण्ठपर्यन्तं खादनम् अकरोत् किन्तु शिरः कथम् आदनो आदनीयम् इति ते तेन न ज्ञातं तादीया बुभुक्षा तु न समाप्ता आसीत् सः पुनः शिवं पृष्टवान् अत्र किम् अभवत् वदति वा कीर्तिमुखः राक्षस रूपं रुप, धृत्वा स्वदेश्य खादनम् आरब्धवान् एक्स् अधुना मकररूपम् इत्युक्ते मकररूपम् इत्युक्ते किम... मकर इत्युक्ते अन्यकोपि अन्यकोपि सायं करोति मकर इत्युक्ते आम् आम् तत्र क्रोकोडायि मकर तत्र मकररूपं कथमस्ति महोदय तत्र पृच्छ खलु तत्र दीर्घा दीर्घ अधुना अत्र स्थितिः का सह तस्य महती बुभुक्षा एतादृशी बुभुक्षा स्वस्य अपि खादनं कर्तुं सः सज्जः न जानाति किं खादनीयं किं न खादनीयं खादने कः लाभः न जानाति किमपि तत्र शिवः यदा वदति स्वस्य एव खादनं करोतु तदा सह आरब्धवान् केन प्रकारेण मकररूपं सः धृतवान् मकररूपं धृत्वा पृच्छभागतः स्वदेहस्य एव खादनम् आरब्धवान् इत्युक्ते तत्र कल् सार्ट् आफ् फिगर् स्टार्टेड् ईटिङ्ग् फ्रोम् द पृच्छभागतः इति अनन्तरं खादनं खादनं सः कण्ठपर्यन्तं खादनम् अकरोत् इत्युक्ते किं महोदय खादन खादन् खादन् द प्रोसेस् इस् गोयिङ्ग् ओन् सः कण्ठपर्यन्तं कण्ठ इत्युक्ते आमाम् आं ग्रीमः अपर्यन्तं नेक पोषन् पर्यन्तं सह खादनं कृतवान् कण्ठपर्यन्तं खादनम् अकरोत् किन्तु कथम खादनीय न ज्ञात एक महती मुभुक्षा कंठपर्यतम स्वयर सेदनम सहतवा क्षीर इुके सीरखादन से सज्ज तेन किीवित का हा क्य चिंतन कस विचार कवलम खादनम अधुना hmm. तत्र क्षीरः कथं खादा खादामि तेन न जातं तदीया बुभुक्षा तु न समाप् न न एवर् इन्क्रीजिङ्ग् हङ्ग बुभुक्षा न समाप्ता क्षीरपर्यन्तं पर्यन्तं सः आगतवान, परन्तु बुभुक्षा न समापता, hmm. तत्र hmm. एकमस्ति hmm. खलु चर्पट् पञ्जरी इति तदपि न मुञ्चति आशापिण्डम् एवं खलु जयन्ति भगिनि भजगोविन्दं मध्ये आ भजगोविन्दम् अङ्गं गलितं पलितं मुण्डम् एतत् सर्वं परन्तु आशापिण्डं न मुच्यते इति तत्र तस्य आशा तु अस्य आशा इत्युक्ते तत्र लालसा वा तत्र हा महोदय इच्छा, इच्छा। आसक्ति अत्र आसक्ति आसक्ति इति विषयस्य न अन्तौ अत्रापि बुभुक्षा न समाप्ता सः पुनः शिवं पृष्टवान् हा अधुना कः प्रश्नः पश्यामः हा गीताञ्जलि भगिनी भवती पठिति वा तदा शिवः आरभ्य सर्वेषु देवालयेषु भवान् मकरतोरणस्य मध्यभागे तिष्ठतु देवदर्शनार्थम् आगतानां भक्तानां दृष्टविचारान् दुष्टविचारान् अहङ्कारान् दुराशाः च खादतु भवान सर्वेषाम् पूजा पूजपात्रम् भविष्यति पूजापात्रम् भविष्यति इति वरं दत्तवान् इत्युक्ते किं शिवः उक्तवान् अद्य मकररूपेण मध्यभागे देवालयेषु तोरणा, तोरणा, तोरणा मीन्स् तोरणा, तोरण इत्युक्ते तत् केनोपि इति खलु मध्यभागे ठो मकरण से मध्यभागे ठोदर्शन आगतवा दुष्ट विचार अहंकार दुराशा सर्वतुवा भाजापात्र भविष्य भविष्य सर्वेषाम् पूजापात्रं मीन्स् सर्वेषाम् मीन्स् कियद्भक्ता नाम भगिनी आम् आम् पूजापात्रं भविष्यति इति वरम् अत्र पश्यतु किम् अभवत् शिवः तत्र तस्य बुभुक्षा न समाप्ता बुभुक्षा तु आसीदेव तदा किं करणीयम् सर्वेषु देवालयेषु तोरणस्य मध्यभागे तिष्ठतु अत्र तोरणस्य मध्यभागे राक्षसः कीर्तिध्वजः अत्रापि एकः मकर अत्रापि एकः मकर मकरतोरणं मध्यभागे कीर्तिध्वजः इति रचना हा मध्यभागे तिष्ठतु देवदर्शनार्थं तत्र भक्ताः आगच्छन्ति भक्तानां मनसि यान् यान् दुष्टविचारान् अहङ्कारान् दुराशाः दृश्यति तत्र तस्य खादनं करोतु तेन किं भवति तोरणभागे एव यदा भवान् तिष्ठति भक्तानां दुष्ट दुष्टविचाराणाम् दुष्टभावनानां खादनम् दुष्टविचारान् दुष्टभावनां खादय खादनं करोति तदा किं भवति दुष्टविचाररहितः अहङ्काररहितः आशाविरहितमनसा भक्तानाम् अन्तर्भागे मन्दिरस्य अन्तर्भागे देवस्य समीपे प्रवेशम् भवति एवम् खलु हा सर्वेषाम् मनसि ये ये दुष्टविचाराः सर्वेषाम् दुष्टविचाराणाम् भवान् खादतु तेन किम् भवति भवान् सर्वेषाम् पूजापात्रं भविष्यति तथैव वयं कुर्मः खलु मन्दिरप्रवेशात् प्राक् तत्र मकरध्वज तत्र मकरतोरणस्य स्थाने क्षम्यतां मकरतोरणस्य स्थाने एवं वयं तत्र अस् अस्माकम् अहङ्कारभावनां त्यक्त्वा वा दुराशा दुष्टविचारान् त्यक्त्वा आसक्तिम् त्यक्त्वा एव गर्भगृहे प्रवेशं कुर्मः सर्वेषाम् पूजापात्रम् आदरपात्रम् पूजापात्रम् पूजनीय भविष्यति पूजापात्रम् पूजा पूजनीय तत्र पूजनीय भविष्यति इति वरं दत्तवान् अग्रिमे अपि पठतु भगिनी ततः आरभ्य आरभ्य कीर्तिमुखः मकरतोरणस्य मध्यभागे राक्षसमुखाकारेण तिष्ठति देवालयम् आगताः भक्ताः मकरतोरणस्य मध्यभागे तिष्ठवन्तः तिष्ठवन्तम् कीर्तिमुखम् अपि नमस्कुर्वन्ति सः अस्माकं पापानि स्वीकरोति इति तस्य राक्षसकीर्तिमुखः मकररूपेण सोरणस्य मध्यभागे तिष्ठति देवालय आगतवन्तभक्तः भक्ताः आगतवन्तभक्ताः मकरतोरणस्य मध्यभागे तिष्ठ स्थितवन्त स्थित स्थितवान् कीर्तिमुखम् अपि नमस्कुर्वन्ति नमस्कार टु कीर्तिमुखं सो दट् दे क्लियर् देयर् पाप एव्रिथिङ्ग् आम् आं शुद्धभावनया भक्ताः अन्तरभागे गर्भगृहे मन्दिरस्य गर्भगृहे अन्तरभागे प्रवेशं कुर्वन्ति कीर्तिमुखम् किम् करोति सर्वेषाम् दुर्विचाराणाम् ग्रहणं करोति दुष्टभावनां ग्रहणम् करोति तेषाम् खादनं करोति अतः भक्तः यदा प्रवेशम् करोति तदा सः मनसि किन्मिषः किल्मिषरहित आसक्तिरहित आशारहितः एवम् भक्त एतादृशः भक्तः एव परमेश्वरस्य समीपम् गच्छति अतः यत्र यत्र वयम् मन्दिर पश्यामः एतादृशी रचना तदा एषा कथायाः स्मरणम् एतया कथायाः स्मरणम् भवेत् मकरतोरणम् मध्यभागे कीर्तिमुख कीर्तिमुखः राक्षस सर। सर्वत्र दृश्यते मन्दिरप्राङ्गणे अस्तु अस्तु अधुना अत्र आगच्छन्तु सर्वे एकैकम् वदन्तु किं दत्तमस्ति वदतु अपेक्षर मन्दिरे मन्दिरदर्शनार्थे गच्छतु बहु सम्यक् यदा वयं मन्दिरं मन्दिरदर्शनं कुर्मः तदा मनसि बहवः आशाः बहवः विचाराः लाभस्य विचारः तत्तु अस्ति मनुष्यस्वभावम् एतत् तत मनुष्यस्वभावानुसारेण तत् मनसि विचाराः तु सन्ति एव परन्तु मक् तत्र मकरतोरणं तत्र अस्ति कीर्तिध्वजराक्षस सः किं करोति सर्वदुष्टविचाराणां वा आसक्तिभावना स्वार्थिभावना या या भावना, भावना, भावना मनसि सन्ति तेषां सह ग्रहणं करोति अतः वयम् निराशास्थिति प्राप्नुमः तेन एव निराशा इत्युक्ते तत्र आशा वा आसक्तिरहित आसक्तिरहितत्वं मनसि भवेत् तेन एव वयं अग्रिमे गच्छामः इति अस्ति प्रतीकरूपेण एषा कथा प्रतीकरूपेण किमर्थं तत्र कीर्तिध्वजः मनसि लोभरहितत्वं दम्भरहितत्वं मनसि जनयेत् तेन एव परमेश्वरप्राप्तिः भवति इति विचारः नो न भवति सम्यक् भरत् महोदय अन्यकोपि गीताञ्जलिभगति जयन् जयन्ती भगिनी राधा भगिनी वीणा भगिनी वदन्तु एकम. इतः परं निश्चयेन मन्दिरं गमनसमये मनसि एतस्य विषयं स्थाप्य पावनात्मकं भूत्वा द्वारस्य मध्ये एव अस्माकं दुर्गुणानि त्यक्त्वा देवदर्शनं कुर्मः सत्यं सत्यम् सत्यं तस्य वारं वारं कथायाः स्मरणं कृत्वा एव मन्दिरे प्रवेशं मन्दिरं प्रवेशं प्रवेशं कुर्मः तत्र मन्दिरप्रवेशसमये कथायाः स्मरणं निश्चयेन भवेत् इति योग्यं योग्यं भगिनि श्रद्धा भगिनी धन्यवादः धृत्वा देवालयं प्रवेशं वदतु गीताञ्जरी भागेने, किम वदति निष्कलं मनसिश्च देवालयं प्रवेशं कर्तुं देवदर्शनं कुर्वन्तु तत्र कलंकरहित कलङ्करहितमनः तेन एव तन् कलङ्करहितमने मनसा मन्दिरं प्रविष्टामः इति हु? सत्यम् मीणा भगिनी राधा भगिनी राधा भगिनी वक्तुं रा, शक्नोति चेत् वदतु आं भगिनि मम मनसि आशा सर्वे अनलम् अस्ति तस्य दहनं कर्तुम् इति मन्दिरं गत्वा इति कारणं तस्य किमपि अन्तं नास्ति जत्यम अत त्र कीज कीज राक्षस तत्र सदा सर्वदा वर्तते तत्र वर्तमानसक्ति वोभ एक भावनाया अंत तो नव जनयती मनसी परंतु अस्करणी यदा पुनः पुनः जनयति भवतु नाम परन्तु पुनः पुनः तस्य त्यजनमपि भवेत् पुनः पुनः प्रयत्न अस्माभिः करणीयः पुनः पुनः तस्य त्यजनं कृत्वा एव अन्ततो गत्वा वयम् आशारहितत्वं प्राप्नुमः निश्चयेन सत्यं सत्यं योग्यं विणा भगिनी धन्यवादः वीणाभगिनी वदति वा वक्तुं न शक्नोति इति मन्ये अस्तु अन्येषाम् अन्यत् कोऽपि चिन्तनमस्ति वा अस्ति चेत् वदतु इतोपि किं वदतु आमां वदतु प्रथमं मन्दिरप्रवेशे मकरणां दर्शनं करोतु भगवान् दर्शनम् करिष्यामि करिश्या, प्रथमं कीर्तिध्वजमुखं सर्वे पश्यन्तु आसक्तिरहितत्वम् दर्शनम् आस आसक्तिरहितत्वम् प्राप्य आश, एव अनन्तरं भगवद्दर्शनं भवेत् इति योग्यं योग्यं बहुवारं वयं तत् न पश्यामः खलु तत्र तोरणं वयं न पश्यामः परन्तु तत् अद्यदिनम् आरभ्य तत् भवेत् इति हा अतः एषा कथा योग्यं बहु सम्यक् महोदय हा। सत्यं धन्यवादः इतोपि अन्यजयन्तीभगिनी इतोपि किं वक्तुम् इच्छति वा सर्वदा कीर्तिमुखः बुभुक्षा बुभुक्षा एव भवन् भवति वयमपि सर्वदा मन्दिरं यदा गच्छामः तदा अस्माकं गुणान् तस्य कृते बुभुक्षार्थं भोजनार्थं ददामः योग्यं मनसि बुभुक्षा सदा सर्वदा बुभुक्षा तत् अस्माकं मनसि ये ये विकाराः तेषामेव भोजनं गृह्णातु इति वदामः सत्यं सत्यं बहु सम्यक् योग्यं योग्यं बहु सम्यक् बहु धन्यवादाः अस्तु अस्तु वयम् अधुना स्थगयामः अग्रिमे वर्गे गतसमये प्रथमं विष्णुमन्दिरं वा कोऽपि मन्दिरं वा प्रथमं गरुडाल् वा यदा प्रथमं वयं सेवित्वा एव अन्तर् गच्छामः खलु बेनी इतः कीर्तिमुख मुखमपि दर्शनं कृत्वा तदनन्तरम् मन्दिरप्रवेशं कुर्मः आमाम् अस्माकम् अस्माकं कक्षायाः अपि स्मरणं सर्वेषां स्मरणं भवेत् इतो अतः आरभ्य तत् कृत्वा एव मन्दिरं प्रवेशयामः अस्तु सम्यक् धन्यवादाः अस्तु वयम् अधुना स्थगयामः वदतु जयन्ती भगिनी शान्तिमन्दिरं वदतु कृपया आम्बेनि सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्तिः शान्ति शान्ति हरिः ॐ सर्वम् श्रीकृष्णार्पणमस्तु शुभमस्तु धन्यवादः श्रीकृष्णार्पणमस्तु धन्यवादाः पुनर्मिलामः धन्यवादः धन्यवादाुभरात्रिः धन्यवादः